श्रीगुरुभ्यो नमः हरिः ॐ वाङ्मे मनसि प्रतिष्ठिता मनो मे वाजिप्रतिष्ठितमा विराम एधिवेद चमालिस्थं सुतं मे मा प्रहासीरने नाधीते नाहोरात्रान् सन्दधामृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्तिः शान्तिः हरिः ॐ एतरे उपनिषत् ॐ आत्मा वा इदमेक एव आग्र आसीन् नान्यत्किञ्चनमिषत स ईक्षत लोकान्नुसृजा इति स इमान् लोकान् सृजताम्भो मरीचिर्मरमा आपो दोम्भः परेण दिवं द्यौ प्रतिष्ठा अन्तरिक्षं मरीचयः पृथिवी मरो या अधस्तात्ता आपः स ईक्षते वेणुलोकालोकपालानुसृजा इति सोभ्य एव पुरुषं समृद्ध्यत्या आ भ्यतप्त मुखम निरभित जठांडम मुखावाचो अग्निनाशिदेतायुरक्षिणी निरभिताक्षुच्चु आदि कर्ण निरभिता कर्णाभ्यां श्रोत्रं श्रोत्रादिसत्त्वङ्गनिरभिद्यत त्वचो लोमालिलोमभ्य ओषधीवनस्पतयो हृदयं निरभिद्यत रेयान्मनो मनसश्चन्द्रमा निरभिरभिद्यत नाभ्या अपानोपालमृत्यो शिष्णं निरभिद्यत सुसनाद्रेतो रेतस आप द्वितीयः खण्डः ताएता एता देवता सृष्टा अस्मिन् महर्त्यर्णवे प्रापतन्तमसनायापिपासाभ्यां मनम् भवार्जत्ता एनमब्रुवन्नायतनं न प्रजानी हि यस्मिन् प्रतिष्ठिता अन्नमदामेति ताभ्यो गामान् यत्ता अब्रुवन्न वै नोयमलम्मिति ताभ्यो स्वमानयत्ता अब्रुवन्नवै नोऽयमलम्मिति ताभ्यपुरुषमानयत्ता अब्रुवन् सुकृतं बतेति पुरुषो वा अभे अब्रबी थाथातन प्रवीशतेतिर्वा भू ता मुख प्राशद्वायो प्राणो भूता नाशिपा चक्षुर चक्षुर्भुवा क्षिणीए प्राविशद श्रोत्रं भूत्वा कर्णौ प्राविशन्दोषध देवनस्पतयो लोमानि भूत्वा त्वचं प्राविशं चन्द्रमाबणो भूत्वा हृदयं प्राविसं मृत्युरपानो भूत्वा नाभिं प्रावि रेतो भूत्वा शिस्मं प्राविशद तमसनाया पिपाशे अवृता मायवाभ्याम अभिप्रजना ती ते अब्रवीदेता स्वेवाम दवा भजामेता भागिण्यौकमी च कैचताये हविज भगिन्यामेवास्यां शनायापिपा आसे भवतः तृतीयः खण्डः स इच्छते मेणुलोकाश्च लोकपालाश्चान्नमेभ्यः लुका सृजा इति सोपोऽभ्य तपत्ताभ्यो नितप्ताभ्यो मूर्तिरजायत या वै सा मृतिरजायतान्नं वै तत तदेन सृष्टं पराङ्त्यजिघा सद्वाचा अभि अव्रीं तिक्षं तन्नाशक्नोद्वाचा ग्रहीतुं स यद्वै न वाचा ग्रह्यस्य दिव्याहृत्य हेवान्नमन्त्रप्स्यत तत्प्रालेनाजिघृक्षतन्नाशक्नोत्प्रालेन ग्रहीतुं स यद्धैर्नप्राणेनाग्रहैष्यदभिप्राण्य हैवान्नमन्त्रप्स्यत तच्चक्षुषा जिघृक्षन्न तान्नाशक्नु चक्षुषा ग्रहीतुं स यद्धैर्ण चक्षुषा ग्रहैष्य दृष्ट्वा हैवान्नमद्रप्स्यत तत्स्तोत्रेणाजिघृक्षतन्नाशक्नो श्रोत्रेण गृहीतुं स यद्धैनच्छोत्रेणाग्रहेष्य श्रुत्वा हैवान्नमन्द्रप्स्यत तत्त्वचा जिघ्रक्षतं नाशक्नो त्वचा गृहीतुं स यद्धैनत्वचा ग्रहेष्यत स्पृष्ट्वा हैवान्नमन्त्रप्स्यत तन्मनसा जघृक्षतन्नाशक्नोन्मनसा ग्रहीतुं स यद्धैनन्मनसाग्रहैष्य ध्यात्वा हैवान्नमन्त्रप्स्यत तच्छिस्नेहाजघृक्षतन्नाशक्नोश्चित्स्नेन ग्रहीतुं स यद्धैनच्छिष्णोन्नाग्रहीष्यद्विसृज्य एवान्नमन्त्रप्स्यत तद्पादेनाजुघृक्षत्तदावयस्यैषोऽन्नस्य प्रहो यद्वायुरण्णायुर्वा एष यद्वायुः स ईक्षत कथं निदं मद्रिते स ईक्षत कतरेण प्रपद्य इति स ईक्षत यदि वाचाभिव्याहृतं यदि प्राणीनाभिप्राणितं यदि चक्षुषादृष्टं यदि श्रोत्रेणाश्रुतं यदि त्वचास्पृष्टं यदि मनसा ध्यातं यद्यपालेनाभ्यपातिनं पाणितं यदि शिश्नेनासृष्टं मथ को ऽहमिति स एतमेव सिमानं विद्यायैतया द्वारा प्रा तैषा विदितिर्नामद्वास्तदेतन्नान्दनन्तस्य त आवसथाश्रयः स्वप्ना अयमावसथोयमावसथोयमावसथ इति स जातो भूतान्यभिभ्यैरभ्यत किं किमिहान्यं भावधि सद्यति स एतमेव पुरुषं ब्रह्म ततमं पश्यदीदमन्दर्शिमिति तस्मादिन्दिनन्द्रो नाम दन्द्रोह वै नाम तमिन्द्र इन्द्रं सन्तमिन्द्र इत्याचक्षते परोक्षे यरोक्षप्रिया इव देवा परोक्षप्रिया इव देवा द्वितीयोऽध्यायः प्रथमः खण्डः ॐ पुरुषे ह वा अयमादितो गर्भो भवति यदे दद्रेत तदेतस्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतमात्मन् मात्मन। मात्मण्डेवात्मानं बिभरति तद्यदा स्त्रियां सिञ्चत्यथैरन् जनयति तद्वस्य प्रथमं जन्म तस्य या आत्मभूयं गच्छति यथा स्वां समङ्गं तथा तस्मादीनां न हिनस्ति सास्यैतमात्मनात् मानमद्रगतं भावयति सा भावयित्री भावयितव्या आ भवति तं श्रीगर्भैः बिभर्ति सोऽग्र एव कुमारं जन्मनोग्रेति भाव भावयति स यत्कुमारं जन्मनोग्रेधि भावयत्यात्मानमेव तद्भावयत्येषां लोकानां तन्तत्या एव सन्तता हिमे लोकास्तदस्य द्वितीयेयं जन्म सोऽष्यायमात्मा पुण्येभ्यः कर्मभ्यः धीयते प्रतिधीय था थायर आत्मा कृत कृत्यो पृथकृत्यो व्योगता तैसे इत प्रयन्दे पुनर्जा वदस्तीय जन्म तदुक्त मृषिणा गर्भेणुसम वेदमहम देवा मलि विश्वा सतं मा पुरम् आयसीररक्षन्नथः स्येनोजवशान्निरदीयमिति गर्भ एवै एवैतच्छयालो वामदेव एवमुवाच स भेदा विद्वानस्मा सति शरीरभेदादुर्ध्व उत्क्रम्यामुस्मिन् स्वर्गोल्लोके सर्वान् कामानाप्त्वा मृतः सम्भवत्य सम्भवः समभवत् प्रथमः खण्डः ॐ कोऽयमात्मेति वयं वयमुपास्महे कतरः स आत्मा येन वा आपश्यति येन वा आं शृणोति गन्धानाजिघ्रति येन वा आं वाचं व्याकरोति येन वा आस्वादु चास्वादु च विजानाति यदेतद्धृदयं मनस्यैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृष्टिर्धृतिर्मति मनीषाद्योतिः स्मृतिः सङ्कल्पक्रतुरसु कामो वन्वस इति धर्वाण्डदेवैतानि प्रज्ञानस्य नामधेयानि भवन्ति देशब्रह्मैष इन्द्र एष प्रजापतिरेते सर्वे देवा इमानि च पञ्चमहाभूतानि पृथिवी वायुराकाश आपो ज्योतिषित्येतानिमाणि च क्षुद्रमिश्राणि वेजानिचराणि चा चेतराणि चाण्डजानि च चा चारुजानि च चा श्वेदजानि चोद्भिद्यानि चास्वाग् पुरषा हस्तिनो यत्किञ्चेदं प्राणिजङ्गमं च पतत्री च यच्च स्थावरं सर्वं तत्प्रज्ञालित्रं प्रज्ञाले अप्रतिष्ठितं प्रज्ञाले एत्रो लोकः प्रज्ञा प्रतिष्ठिता प्रज्ञा आनं ब्रह्म स एतेन प्रज्ञालेत्मनास्माल्लोकादुत्क्रम्यामुस्मिन् स्वर्गेल्लोके सर्वान् कामानाप्त्वा मृतः सम्भवत ॐ वाङ्मे पततिं वाङ्मे मनसि प्रतिष्ठिता मा मनोमेवाजि प्रतिष्ठितमाभिराबर्म एदि वेदस्य माळिष्ट श्रुतं मे मा प्रहासीरनिलाधीते नाहोरात्रान्सन्दधामृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्व्यक्तारमवतु अवतु माम् <śclassic> अवतु वक्तारम् अवतु वक्तारम् ॐ शान्ते शान्ते शान्तिः हरिः ॐ तस्य श्रीरामकृष्णार्पणमस्तु